श्रीमद्भागवत् महापुराणं दसंस्कन्ध अतित्रयत्रिंशोऽध्यायः महाराश श्रीशोकुवाच इत्थं भगवतो गोप्य श्रुत्वा वाच सुपेशलाः जहुर्विरहजं तापं तदङ्गोपचिताशिष तत्रारभदगोविन्दो रासक्रीडामनुव्रतैः श्रीरत्नैरविन्द्रन्विन्तः प्रीतैरन्योन्याबद्धबाहुवी रासोत्सवसम्प्रवृत्तो गोपीमण्डलमण्डितः योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः प्रविष्टेन गृहीतानां कण्ठेश्वनिकटं त्रियः जम्मन्यैरन्नभस्तावन्विमानशतशङ्कुलम् दिवौकसां सदाराणां मौत्सुख्यापथितात्मना ततो दुन्दुभयो नेतुर्निपेतोप्रें पुष्पवृष्टयः जगुर्गन्धर्वपतयस्रीका सद्यसोमलं मलयानां न ना पुराणां किङ्कणीनां च योषिताम् संप्रियाणां बभुञ्छब्द तु मुलोराशमण्डले तत्रातिशिशुभेताभिर्भगवान् देवकीसुतः मध्ये मलीनां हेमानां महामरकतो यथा पादन्यासैर्भुजविधूतिभिः संस्मृतैर्भूविलासै भजन्मध्ये चञ्चलकुचपटैकुण्डलैर्गण्डलोलये सिध्यन्मुख्यकमरशनाग्रन्थय कृष्णबद्धो गायन्त्यस्तं तडितैव तामेघचक्रे विरेजुः उच्चैजुगुर्नृत्यमाना रक्तकण्ठो रतिप्रियाः कृष्णाभिं मरसमुदिता यद्गीते नेदमावृतं काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः उन्निन्ने पूजिता तेन प्रीयता साधु साध्विते तदेव अधुमुन्निन्ये तस्मै मानं च बहुवदा काचीदासपरिश्रान्ता पार्श्ववस्थस्य गदाभितः जग्राह बाहुना स्कन्धं स्रसजद्वलमल्लिका तत्रैकांसुगतं बाहुं कृष्णस्योत्पलसौरभं चन्दनालिप्तमाघ्राय हृष्टरोमाचुम्भः कस्याच्चिन्नाट्य विक्षिप्तकुण्डलत्विजमण्डितं गडङ्गण्डे सदन्धत्या अदात्ताम्बूलचरितं नित्यन्ति गायन्ति काचित् कुज्जन्नुपुरमेखला पार्श्वस्थाच्युतहस्ताब्जं सान्ताधास्तनयो शिवं गोप्यो लब्धाच्युतं कान्तं श्रिय एकान्तवल्लभं गृहीतकण्ठस्तद्दोर्भ्यां गायन्त्यस्तं विजह्वरे कर्णोत्पलालङ्कम्बिकण्टङ्ककुम्पूलमर्घभक्तश्रियोवलेनूपुरघोषवाद्यै गोप्यसमं भगवता नूषकेशस्रस्तजो भ्रमरगायकरासगोष्याम् एवं परिश्रङ्गकराभिमर्शस्निग्धे क्षणोद्दामविलासहासै देमे रमेशो वृजसुन्दरेभि यथार्भुक स प्रतिबिम्ब विभ्रम तदङ्गसङ्गप्रमुदा कुलेन्द्रिया केशान्दुकूलं कुचपट्टिकां वा लाञ्ज प्रतिभ्योढुमलं वृजस्त्रियो ब्रजस्त्रियो कुरु द्वः कृष्णविक्रेण तं व्यक्ष्य मुहुमुखे चरस्त्रियः कामार्जिता शशाङ्कश्च शगुणो विस्मृतोऽभवत् यद्वा तावन्तमात्मानं यावतिर्गोपयोषितः नेमे स भगवांस्ताभिः आत्मा रामोऽपि